अग्निश्च चमे मे घर्मः घर्मश्च चमे मेऽर्कः अर्कश्च चमे मे शूर्यः शूर्यश्च चमे मे प्राणः प्राणश्च प्राण इति प्रा अनः चमे मे स्वमेधः अश्वमेधश्च अश्वमेध इत्यश्व मेदः समे मे पृथिवी पृथिवी च समे मे दितिः अदितिश्च समे मे दितिः दितिश्च समे मे द्यौः द्यौश्च समे मे चत्वरीः चक्वरीरङ्गुलयः अङ्गुलयो दिशः दिशश्च चमे मे यज्ञेन यज्ञेन कल्पन्ता कल्पन्तामृज मृक् चमे मे साम साम चमे मे स्तोमः स्तोमश्च चमे मे यजोः यजश्च समे ए मे दीक्षा दीक्षा च मे तपः तपश्च समे ए मरुतुः ऋतश्च समे ए मे व्रतम् व्रतम् च समे ए मे होरात्रयोह अहोरात्रयोः हो वृष्ट्या हो त्यह रात्रयोः वृष्ट्या बृहद्रथन्तरे बृहद्रथन्तरे च बृहद्रथन्तरे इति बृहत् रथन्तरे च मे मे यज्ञेन यज्ञेण कल्पेता कल्पेतामिति कल्पेता अग्निष्ट तमेहे